गणेशपुराणम् उपासनाखण्डम् अध्यायम् फोर्टि फोर् व्यास उवाच तदकिमकरोच्चम्भूस्त्रिपुरेण पराजितः कथं तमजयदैत्यं त्रिपुरं जयशालिनं ब्रह्मोवाच ततः शम्भुः परां चिन्तामापेदे मनसा सकृत स्वाहा स्वधा विहीनम् दुभुदलम् परिचिन्तयन् कदा देवा भविष्यन्ति गदज्वराः केनोपाये न वा स्यात् दुर्जयस्य पराजयः एवं चिन्तातुरे तस्मिन् नारदो मुनिसप्तमः आययौ शङ्करम् दृष्टुम् देवान् सर्वान् यदृच्छया तं दृष्ट्वा जहृषे देवो मर्त्यः प्राप्य यथामृतं पूजयामासविधिवत्कृदासनपरिग्रहम् आलिङ्ग्यतमुवाचेद्धं शिवश्चिन्तातुरो भृशं देवानां हितमन्विच्छन् दैत्यस्य वधमेव च शिव उवाच दैत्येन सर्वदेवानां पदनं कृतमोजसा तद्रणे भग्नसङ्कल्पाः सर्वे देवाः यादादशदिशो ब्रह्मन् कक्कुत्रास्तेन वेद्म्यहं ममाप्यस्त्राणि तेनास्त्रैः प्रभग्नानि सहस्रशः ब्रह्मोवाच श्रुत्वा शिववचः सोममवादीन्मुनिसत्तमन्वा न परमाश्चर्यं त्रैलोक्य ेष पराभवं नारद उवाच सर्वज्ञे सर्वविद्येषे सर्वेशे सर्वकर्तरि सर्वानने सर्वकरे सर्वस्यापि नियन्तरि शक्रे कर्तुमकर्तुं वाण्यथा कर्तुमपि प्रभो अणिमादिगुणोपेदे षडैश्वर्यविलासिनि किं वक्तव्यं मया देव सर्ववाघ्रवरे त्वयि मुनिना गानसक्तेन त्रिलोकीं भ्रमदानिशं तव mm. वाक्यानुरोधेन विचार्य प्रब्रवीम्यहम् एवमुक्त्वा पुनः प्राह शिवं मुनिः मुनिरुवाच युद्धाय गन्तुकामेन नार्चिदो गणपस्त्वया अतः पराभवं प्राप्तो वह्निनेत्रः पिना कधृक इदानीमर्चय पुरा विघ्नेशं विघ्नवारणम् प्रसाद्य तद्वरं लब्ध्वा या हि दैत्यं नात्र कार्या विचारणा ब्रह्मोवाच तेनापि तपसा देवो महताराधितः पुरा तेन तस्मै वरो दत्तो किल महेश्वरं विना मृत्युर्न केनापि भवेत्तव तस्माद्गिरिशतस्येदं कामगन्तु पुरत्रयं ये के शृणा दारयस्व जयो पायोयमिरिदः प्रहर्षमदुलं लेभे श्रुत्वा गजाननगिरम् को वाक्दां प्राहतं मुनिं शिव उवाच सत्यमुक्तं त्वया ब्रह्मं त्वद्वाक्येन स्मृतं मया उपदिष्टौ पूर्वमेव मन्त्रौ तेन मुने मम षडक्षरैकक्षरौतौ सर्वसङ्कटकारकौ युद्धे व्यासक्रचित्तेन न जप्तौ न च संस्मृतौ सर्वविघ्नहरो देवो न हि गजाननः सर्वेषां कारणं कर्ता तादाहर्ता विनायक मुनिरुवाच तं तोषयमहादेवमहादेवं गजाननं ब्रह्मोवाच विसर्ज्य नारदं देवो जगामस्तपसे शिवः दण्डकारण्यदेश्येदु पद्मासनस्थिदो जपद प्रणिधाय बलात्कानि नियम्यध्यानतत्परः सो तप तप उग्रं तो शतवर्षा शंकर ततस्त मुक्खा भोजा निर्गतस्तु पुमा पंचवक्ो दश भुजो लाडेन्दुशिप्रभ मुलो सर्पभूषो अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वशायुधः तद्भासाधर्षितो देवोपश्यदुग्रं पुरस्थितं विनायकं पञ्चमुखं पञ्चाश्यमपरं शिवं तं दृष्ट्वा तर्कयद्धेव किमकं द्विविधो भवम् किं वा ममैव रूपेण त्रिपुरोयमिहा गतः त्रयस्त्रिंशत्कोटिदेवेश्वभरपञ्चवक्त्रवान् अथवा स्वप्नयेवायं दृष्टो दीर्घतरो मया अधवा मेवरं वरं दातुमागतोऽयं गजाननः सर्वविघ्नहरं देवं यं ध्यायामि दिवानिश्यं ब्रह्मोवाच एवमाकर्ण्यतद्वाक्यमुवाच द्विरदाननः अन्तर्यस्तर्कितो देवः सोऽयं विघ्नहरो विभुः नमेश्वरूपं मे जानन्ति देवर्षि चतुराननाः न वेदासोपनिषदकुद षट्शास्त्रवेदिनः अशेषभुवनस्याहं कर्ता पादापहारकः ब्रह्मादिस्थावरचरत्रिगुणामहं प्रभुः तपःसानेन तुष्टोऽहं वरं दादुमिहागतः वरान् महादेव यावदो मत्त इच्छसि इति श्रीगणेशपुराणे उपासनाखण्डे तपोवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ओ